श्रीमद्भागवतमहापुराणं नोमस्कन्ध अथाष्टादशोऽध्यायः ययाति चरित्रशेषुकुवाच यतिर्ययाति स्याति आयतिर्विर्यति कृतिः षडिमे नहु सस्यासन्निद्रियाणीव देहिनः राज्यं नैष्यति पित्रा दत्तं तत्परिणामवि यद्र प्रविष्ट पुरुष आत्मानं नावबुध्यते पितरिभ्रंसिते स्थानादिन्द्राण्या धर्षणाद्विजैः प्रापिते जगरत्त्वं वै ययातिरभुवन्नृपः चतस्रस्वादिसध्यक्षो भ्रातृन्भ्राताय वीयसः कृतदारोजुगुर्पूर्वी काव्यस्य वृषुपर्वणः राजवाच ब्रह्मर्षि भगवान् काव्यक्षत्रबन्धुस्य नाहुषः राजन्यभिप्रयो कस्माद्विवाहं प्रतिलोमकः श्रीशुकुवाच एकदा दानवेन्द्रस्य शर्मिष्ठानां कन्यका सखीसहस्रसंयुक्ता गुरुपत्या च भामिनी देवयान्या पुरोद्याने पुष्पितद्रूमशङ्कुले व्यजत्कलगीतालीनलिनी पुलिनीम्बलां ताजलाशयमासाद्य कन्याकमलोचनाः तीरेण स्यादुकुलानि विजफ्रूषिञ्च तिरिमिथ वृक्ष व्रजन्तं गिरिशं सह देव्या वृषस्थितम् सहसौत्तिर्यवासांसि पर्यधो व्रीणिता श्रियः सर्वेष्ठा जानते वासो गुरुपुत्र्या समव्ययन् ह्रियं मत्वा प्रकुविता देव जानीदमब्रवीत् अहोर्लिक्ष्यतामस्या दास्या कर्म श साम्प्रतम् अस्मद्धार्यं धृतवती सुनिवहवीरध्य रे जैरिदं तपसा शिष्ठं मुखं पुंसपरस्य ये धारिते यैरिहज्योतिः शिवपन्था दर्शितः यानवन्द्यत्युपत्तिष्ठन्ते लोकनाथासुरेसुरेश्वराः भगवानपि विश्वात्मा पावनः श्रीनिकेतनः वयं तत्रापि भृगवः शिष्यो स्यान्नपितासुरः अस्मद्धार्षम् धृतवती शुद्रो वेदमिवाशती एवं सपन्तिं शर्मिष्ठा गुरुपुत्रीमभाषत रुषा सुसन्त्यो रङ्गीवर् धर्षिता दष्टदक्षताम् आत्मवृत्तम् अभिज्ञाय कथ्यसे बहुभिक्षुकी किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा एवंविधये पुंसोपरुषे क्षिप्ताचार्यसुतां सतीं शर्मिष्ठा प्राक्षिपत्कूपे वास आदायमन्युनाम् तस्यां गतायां स्वगृहं यातिर्मृगयां गुचरन् प्राप्तो यदीक्षया कूपे जलार्थितां ददर्शः द्वं दत्वा स्वमुत्तरं वासस्तस्यै राजाविवाससे गृहीत्वा पाणिना पाणिम् उज्झहार दयापरः तं विरमाहो शनसि प्रेमनिर्भर्या गिरां राजस्त्वया गृहीतो मे पाणीपरमपुरञ्जय हस्तग्राहो परो मा भूगृहीताया त्वयाहि एष एष कृतो वीरसम्बन्धो नौ न पौरुषः यदि तं कुपलग्नाय भवतो दर्शनं मम न ब्राह्मणो भविता हस्तग्राहो महाभुज कतश्च बार्हसम्पत्यस्य सापायं सपं पुरा ययातीरनभिप्रेत दैवोपहृतमात्मनः मनस्तु तद्गतं बुद्ध्वा प्रतिज्ञग्राह तद्वचः गते राजनिसावीरे तत्तस्मरुदति पितुः न वेदि उक्तं चर्मिष्ठया कृतं दुर्मना भगवान् काव्यपौरोहित्यं विगर्हयन् सुवन्वृत्यं च कापूचिं दुहित्रा स पुरात्